श्रीमद्भागवत् महापुराणम् दसंस्कन्ध पञ्चचत्वारिंशोऽध्यायः अथ सूरसितो राजन् पुत्रयो समकारयत् पुरोदसा ब्राह्मणैश्च यथावद्विजसंस्कृतिम् तेभ्यो दादिदक्षिणागावो रुक्ममाला सुलङ्कृताः स्वलङ्कृतेभ्य सम्पूज्य संवत्सा या कृष्णरामजन्मक्षये मनो दत्ता महामती ताश्चाददादनुस्मृत्य कंसेनाधर्मतोहिता ततश्च लब्धसंस्कारौ द्विजत्वम् प्राप्य सुव्रतौ गर्गाद्यतिकुलाचार्याद्गायत्रम् व्रतमास्थितौ प्रभुवौ सर्वविद्यानाम् सर्वज्ञौ जगदीश्वरौ नान्यसिद्धामलज्ञानम् गूहमानौ नरेहितैः अथो गुरुकुले वासंक्षन्ता उपजग्मतु काश्यम् सान्दीपनिम् नाम शमन्ते पुरवासिनम् यथोपसादितौ दान्तौ गुरो वृत्तिमनिन्दिताम् ग्राह्यन्ता उपेतौ स्म भक्त्या देवमिवादितौ तयोर्जुजवरस्तुष्टशुद्धभावानुवृत्तिभिः प्रोवाच वेतनां वेदानखिलान् साङ्गोपनिषतो गुरुः सरहस्यं धनुर्वेदं धर्मान्यायपथास्तथा तथा चान्वीक्षिकिं विद्यां राजनीतिं च षड्विधां सर्वं नरवर्षेष्ठौ सर्वविद्याप्रभर्तकौ सखिण्डिगतं मात्रेण तौ सञ्जगृहिन्तु नृप अहोरात्रे चतुषष्ठा संयत्त तावती कलाः गुरुदक्षिणयाचार्यम् छन्दयामासतुर्नृप जिरस्तयोस्तम् महिमानमद्भुतम् संलक्ष्य राजानतिमानसम्मतिम् सन्मन्त्यपत्न्या स महानवे मृतम् बालम् प्रभा सेवर्याम्बभूवः तथेतिथारूय महारतौ रथम् प्रभासमासाद्य दुरन्तविक्रमौ देलामुपव्रज्य निषेदतूषणम् सिन्धुर्विदित्वार्हणमाहरद्यो तमाह भगवानाशु गुरुपुत्र प्रतीयताम् सोऽसा विहितया ग्रस्तो बालको महतोर्मिणाम् समुद्रुवाच नैवाहार्षुमहम् दैव दैत्य पञ्चजनो महान् अन्तर्जलचर कृष्ण शङ्खरूप धरोशुरः आस्ते ते नाथितो नूनम् तच्छ्रुत्वा सत्वरम् प्रभू जलमावेश तम् भत्वा नापश्यन्ति दुरेर्भकम् तदङ्गप्रभुवम् शङ्खम् आदाय रथमागमन् ततः संयमुनीनाम यमस्य दीताम् पुरीम् गत्वा जनार्दन शङ्खम् तदद्मौ सहलायुध शङ्कनिर्हादमाकर्ण प्रजासैयमनोयमः तयो सपर्याम् महतिम् चक्रे भक्त्युपृहिताम् वाचावनत कृष्णम् सर्वभूताशयालयम् लीलामनुष्य हे विष्णो युवयो करवाम किम् श्रीभगवानुवाच गुरुपुत्रमिहाने तम् निजकर्म निबन्धनम् आनीय स्व महाराज मच्छासन पुरस्कृतः तथेति ते नोपानीतम् गुरुपुत्रम् यदुत्तमौ दद्वाश गुरुवे भूयो गुणीश्वेतीतमोचतु गुरुर्वाच सम्यक् सम्पादितो वः गुरुनिष्क्रिया कोनु नु बिदगुरो कामानाम अवशिष्यते गच्छतम् स्वगृहम् वीरौ किर्ति पावने सन्दाशयाति यामानि भवन्ति विह परत्र च गुरुणैव मनुज्ञातौ आयातौ श्वपुरम् तात पर्जन्यनिनेदम् वै समन्दनं त्वया सर्वा दृष्ट्वा रामजनार्दनौ अपश्यन्तो बहुहाली नष्टलब्धधना इव श्री श्रीमद्भागुते महापुराणे प्रपञ्चां चैतायां दशस्कन्धे पूर्वार्धे गुरुपुत्रा नयनम्नां पञ्चचत्वारिंशोऽध्यायः